अथ षोडशोऽध्यायः श्रीभगवानुवाच अभयम् सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् अहिंसा सत्यमक्रोधः त्यागशान्तिरपैशूनम् दयाभूतेष्वलोलुप्तम् मार्दवम् ह्रीरचापलम् तेजक्षमाधृतिः शौचम् अद्रोहो नातिमानित भवन्ति अभिजातस्य भारत दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च अज्ञानञ्चाभिजातस्य पार्थसम्पदमासुरी दैवीसम्पद्विमोक्षाय निबन्धायासुरीमत मत माशु च सम्पदम् दैवीम् अभिजातोऽसि पाण्डव द्वौ भूत आसुर एव च दैवो विस्तरश प्रोक्तः प्रवृत्तिञ्च निवृत्तिञ्च जनानविदुरासुराः न शौचम् नापि चाचारः न सत्यम् तेषु विद्यते असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् अपरस्परसम्भूतम् किमन्यत्कामहैतुकम् एताम् दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः प्रभवन्त्युग्रकर्माणः क्षयाय जगतो दम्भमानमदान्विताः मोहाद्गृहीत्वा सद्ग्राहा प्रवर्तन्तेषु चिव्रताः चिन्तामपरिमेयाञ्च प्रलयान्तामुपाश्रिताः कामोपभोगपरमाः एतावदिति निश्चिताः आशापाशशतैर्बद्धाः कामक्रोधपरायणाः इहम् ते कामभोगार्थम् अन्यायेनार्थसञ्चया इदमद्यमया लब्धम् इमम् प्राप्स्ये मनोरथम् इदमस्तीदमपि मे भविष्यति पुनर्धनम् असौ मया हत शत्रुः खनिष्ये चापरानपि ईश्वरोऽहम् अहम् भोगी सिद्धोहं बलवां सुखी आड्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया यक्ष्ये दास्यामि मोदिष्ये इत्यज्ञानविमोहिताः अनेकचित्तविभ्रान्ताः मोहजालसमावृताः प्रसक्ता कामभोगेषु पतन्ति नरकेषु च आत्मसम्भावितास्तब्धाः धनमानमदान्विताः यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्वकम् अहंकारं बलम् दर्पम् कामं क्रोधम् च संश्रिताः मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः तानहम् तानहं क्रूरा संसारेषु न राधमा क्षिपाम्यजस्रमशुभा आसुरेष्वेव योनिषु आसुरीं योनिमापन्नाः मूढा जन्मनि जन्मनि मामप्राप्यैव कौन्तेय ततो याप्यधमाङ्गतिम् त्रिविधम् नरकस्येदम् द्वारम् नाशनमात्मनः कामक्रोधस्तथा लोभः तस्मात् एतत्त्रयम् त्यजे एतैर्विमुक्तकौन्तेय तमोद्वारैस्त्रिभिर्नरः आचरत्यात्मनः श्रेयः ततो याति परङ्गतिम् यशस्त्रविधिमुत्सृज्य या वर्तते कामकारतः न सिद्धिमवाप्नोति न सुखम् न पराङ्गतिम् तस्मात् शास्त्रम् प्रमाणन्ते कार्या कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तम् कर्म कर्तुमिहर्हसि ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पत् विभागयोगो नाम षोडशोऽध्यायः